श्रीमद्भागवतमहापुराणं चतुर्ष स्कन्ध अथ सप्तविंशोऽध्यायः नारदुवाच इत्थं पुरञ्जनं संयगो वशमाने विभ्रमै पुरञ्जने महाराज रे मे रमयति पतिं स राजा महिषीं राजन् सुस्नातां सुचिराननां कृतस्वस्यनां तृप्ताम् अभ्यनन्ददुपागताम् तयोपगूढपरिरब्दकन्दरो रहोनुमन्त्रैरपि कृष्कृष्टचेतनः न कालरङ्गो विबुधे दुरत्ययं दिवानिशेति प्रमदा परिग्रह शयानुमुन्नद्धमहो महामना महाषतल्पे महिषी भुजोपदी तामेव वीरो मनुते परं यत तमोऽभिभूतो न निजं परं च तयैवं रममाणस्य कामकस्मलचेतस क्षणार्धमिव राजेन्द्रव्यतिक्रान्तं नवं वयः तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः शतानेकादशविराडायुषोर्धमथा त्यगान् दुहित्रेर्दशोत्तरशतं पितृमातृयशस्करिः शीलौ दार्यगुलोपेता परों परं पौरोञ्जनन्यप्रजापते सपञ्चालपतिपुत्रान् पितृवंशविवर्धनान् दारैः संयोजयामास दुहिद्रीसदृशैर्वरैः पुत्राणां चाभवन्पुत्रा एकैकस्य एक शतं शतम् यैर्वैः परं पौरञ्जनं वंशः पान् पञ्चालेषु समेधितः तेषु तद्रिक्थहारेषु गृहकोशालु जीविषु निरूढेन ममत्वेन विषयेष्वन्वबध्यत इजे च कृतुभिर्घोरै दीक्षितं पशुमारकै देवान् पितृन्भूतपतिन्नाकामो यथा भवान् युक्ते स्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः आससादस वै कालो यो प्रियप्रिययोषितां चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप गन्धर्वास्तस्य बलिन सत्युत्तरशतत्रयम् गन्धर्वास्तादिशिरस्य मैथुन्यस्य सितासिताः परिवृत्या विलुम्पन्ति सर्वकामविनिर्मितां ते चण्डवेगानुचरा पुरञ्जनपुरं यदा हर्तुर्मारेभिरे तत्र प्रत्यषेधप्रजागरः स सप्तमीशतैरेको विंशत्या च शतं शमाः पुरञ्जनपुराध्यक्षो गन्धर्वविधे बली क्षीयमाणेशसम्बन्धे एकस्मिन् बहुभिर्युधा चिन्तां परां जगामार्त् स राष्ट्रपुरबान्धवः स एव पुर्यां मधुभुक् पञ्चालेषु सपार्षदै उपनीतं बलि गृह्णन्त्रे जितो कालस्य दुहिता काचित् त्रिलोकिं वरमेक्षति पर्यटन्ते नहिस्मिन् प्रत्युनन्दत कश्चन दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा या तुष्टा राजर्शयेतु वृतादात्पुरवे वरं ब्रह्मलोकान्महिं गतं भव्रे बृहद्व्रतं मां तु काममोहिताम् मयि संरभ्य विपुलम् अदाच्छापं सुदुत्सहं पातुम् अर्हति नैकत्र मद्याञ्चा विमुखो मुने ततो विहतसङ्कल्पा कन्यकायवनेश्वरं मयोपदिष्टमासाद्य वव्रे नानाभयं पतिं नृषभं यवनानां त्वां वीरे फितं पतिम् सङ्कल्पस्त्वयीभूतानां कृतः किल् न रिष्यति द्वाविमावनुशोचन्ते बालावसदवग्रहौ जल्लोकतं न राति अथो भजस्व मां भद्र भजन्तीं मे एतावान् पौरुषो धर्मो यदार्ताननुकम्पते कालकन्यो जित्वचो निशम्य यमनेश्वर चिकीर्षुर्देवगुह्यं ससस्मितं तामभासत मया निरूपितस्त्वभ्यं पतिरात्मसमाधिना नाभिनन्दति लोकोऽयं तां भद्रामसम्मतां त्वम् अव्यक्त गतिर्भुक्ष्व लोकं कर्म विनिर्मितम् याहि मे प्रीत्ना युक्ता प्रजानासं प्रणयिष्यसे प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव चराभ्यो भाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः इति श्रीमद्भागवते महापुराणे प्रहंसां शयितायां चतुर्शस्कन्धे पुरञ्जनोपाख्याने सप्तमेषोऽध्यायः